राजसेव्यमानपावनां कृपङ्कजं व्यालयज्ञसूत्रमिन्दुशेखरं कृपाकरं नारदादियोगिवृन्दवन्दितं दिगम्बरं काशिकापुराधिनाथकालभैरवं भजे कोटिभास्वरं भवाभितारकम् परं नीलकण्ठमीप्सितार्थदायकं त्रिलोचनं कालकालमम्बुजाक्षमक्षशूलमक्षरम् काशिका पुराधिनाथ भजे लटङ्कपाशदण्डपाणिमादिकारणं श्यामकायमादिदेवमक्षरं निरामयं भीमविक्रमं प्रभुं विचित्रताण्डवप्रियं काशिकापुराधिनाथकालभैरवं भजे दायकम् प्रशस्त चारु विग्रहम् भक्तवत्सलम् स्थितम् समस्त लोक विग्रहम् निक्वणन् भजे धर्मसेतुपालकं त्वधर्ममार्गनाशकं धर्मपाशमोचकं सुशर्मदायकं विभुं स्वर्णवर्णशेषपाशोभिताङ्गमण्डलं काशिका रत्नपादुका प्रभाभिरामपादयुग्मकम् नित्यमद्वितीयमिष्ट दैवतम् निरञ्जनम् मृत्युदर्पनाशनम् कराळदं श्रमोक्षणम् काशिका पुराधिनाथ कालभैरवम् भजे टहास भिन्न पद्मचाण्डकोश सन्ततिम् दृष्टिपात नष्टपापजालमुद्रशासनम् अष्टसिद्धिदायकम् कपालमालिकम् धरम् काशिका पुराधिनाथ भजे ऊत सङ्घनायकं विशालकीर्तिदायकं काशीवासलोकपुण्यपापशोधकं विभुं नीतिमार्गकोविदं पुरातनं जगत्पतिं काशिका पुरादिनाथ भजे भैरवाटकं पठंती ये मनोहर ज्ञान मुक्ति साधन विचित्रुण्यवर्धनम शोकमोहदोभकोपतापनाशनमे प्रया काल भैरवा सिधि ध्रुवं